जीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां काश्मीरारुणकञ्चुकाञ्चितकुशां कस्तूरिका चर्चितां कल्काराञ्चितहस्तयुग्मलसितां कारुण्यकल्लोलिनीं कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् कामाराधिमनप्रियां कमलभूसेव्यां रमाराधिता कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाुरा कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रता कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवता कादम्बप्रमदां विलासगमनं कल्याणकाञ्जीरवा कल्याणाचलपादपीठलसिता कान्त्यास्पुरन्दीं शुकां कल्याणाचलकार्मुकप्रियतमा कादम्बमालाश्रयां कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवता धर्वामरसिद्धचारणवधू ध्यानापदानाञ्जिता गौरीं कुङ्कुमपङ्कपङ्कितकुच त्वन्त्वाभिरामां शुभां गम्भीरस्मितविभ्रमाञ्जितमुखीं गङ्गाधरालिङ्गिता कामांशीं कलयामि कल्पलधिकां विष्णुब्रह्ममुखामरेन्द्रपरिषत् कोटीरपीठस्थलां लाक्षारञ्जितपादपद्मयुगलां रागेन्दुबिम्बाननाम् कन्दत्रुमूलदेशमहिते माणिक्यसिंहासने दिव्यां दीपित हेमकान्तिविलसत्वस्त्रावृतां तां शुभां दिव्या कल्पितदिव्यदेहभरिदा दृष्टिप्रमोदान्विता कामाक्षीं कलयामि चक्र निलयाम् रामस्तचक्रनिलय आद्यन्तशून्यामुमा आकाशादि समस्तभूतनिवहाकारामशेषात्मिकां योगीन्द्रैरपि योगिनीशतगण प्रणवात्मिकां प्रणमतां श्रीदानविद्यामयीं ऐं क्लीं संरुचिमन्त्रमूर्तिनिवहाकारामशेषात्मिकां ब्रह्मानन्तरसानुभूतिमहितां ब्रह्मप्रियं वादिनीं कामाक्षीं कलयामि कल्पलतितां काञ्चीपुरीदेवता जनस्य चिन्मयसुखाकारां महायोगिनीं मायां विश्वविमोहिनीं मधुमदिध्येयां शुभां ब्राह्मणीं ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः कामाक्षीं कलयामि कल्पनतिकां काञ्चीपुरीदेवता कामारिकामा कमलासनस्था काम्यप्रदां कङ्कणभूषहस्ता काञ्चीनिवासां कनकप्रभासां कामाक्षी देवी कलयामिचित्ते।